मित्रस्य चर्षणि धृतो देवस्य सानसी द्युं अञ्चित्रश्रवस्तमम् मित्रस्य चर्षणि धृतो देवस्य सानसी द्युं मञ्चित्रश्रवस् स्तमम् मित्रस्य चर्षणि धृतो देवस्य सानसी द्युम्